त्वम् हंसः सविताभानुरंशुमालीवृषा कपिः विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च सहस्ररश्मिरादित्यस्तपनस्त्वङ्गवाम्पतिः मार्तण्डोऽर्को रविस्सूर्यशरण्यो दिनकृत्तथा दिवाकर सप्तसधाकेशीचन आशुगामी तोघनश हरिताश कीर्त सामाथवाष्ट्या्या भक्त पूजा कौती यण नहंक तम लक्ष्मीर्भजते नरम न नाधयो व्याधयस्तथा ये तवानन्यमनसः कुर्वन्त्यर्चनवन्दनम् सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः त्वम् ममापन्नकामस्य सर्वातिथ्यञ्चिकीर्षतः अन्नमन्नपते दातुमभितः श्रद्धयार्हसि सर्वे पादोपान्तम् समाश्रिताः माठरारुणदण्डाद्यास्ताम्स्तान् वन्देशनिक्षुभान् शुभया सहिता मैत्री याश्चान्या भूतमातरः ताश्च सर्वा नमस्यामि पान्तु माम् शरणागतम् वैशम्पायन उवाच एवम् स्तुतो महाराजभास्करो लोकभावनः ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् दीप्यमानः स्ववपुषा